चक्षुर्दद्यान्मनो दद्याद्वाचम् दद्याच्च सूनृताम् अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः यो येवम् वर्तते वृत्यौ वर्तमानो गृहाश्रमे तस्य धर्मम् परम् प्राहुः कथम् वा विप्रमन्यसे शौनक उवाच अहो बत महत्कष्टम् विपरीतमिदम् जगत् येनापत्रपते साधुरसाधुस्तेन तुष्यति शिष्णोदरकृते प्राज्ञः करोति विघसंबहु, बहु मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः षडिन्द्रियाणि विषयं समागच्छन्ति वै तदा प्रादुर्भवत्येषाम् पूर्वसङ्कल्पजम् मनः मनो यस्येन्द्रियस्येह विषयान् याति सेवितुम् तस्यौत्सुक्यम् सम्भवति प्रवृत्तिश्चोपजायते ततः सङ्कल्पबीजेन कामेन विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ततो विहारैराहारैर्मोहितश्च यथेप्सया महामोहे सुखे मग्नो